तैत्तिरिोपनिषत् भृगुवल्ली ॐ भृगुर्वै वारुणिः वरुणं पितरमुपससार अधीः भगवो ब्रह्मेदि तस्माद्ये तत्रो वाचा अन्नं प्राणं चक्षु श्रोत्रं मनोवाचमिति तं वो यदो वायिमानि भोधानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्तभिसंविशन्ति त्वद्विजिज्ञासस्व तद्ब्रह्मेदि तदबोधप्यदा सदपस्तप्त्वा अन्नं ब्रह्मेदि व्यजानात् अन्नाद्येवखल्लिमानि भूतानि जायन्ते अन्येन जातानि जीवन्ति अन्नं प्रयन्तपि संविशन्तीति भिशं तद्विज्ञाया पुनरेव वरुणं विदरमुपसंसारा अधीहि भगवो ब्रह्मेरि तं होवाच तपसा ब्रह्मविजिज्ञासा तपो ब्रह्मेदि स तवोदप्यदा स तपस्तप्त्वा प्राणो ब्रह्मेदिवजानात् प्राणाद्यवखल्यमानि भूतानि जायन्ते प्राणेन जातानि जीवन्ति प्राणं प्रयन्दभिसंविशन्दीरि तद्विज्ञाय पुनरेव वरुणं वितरमुपसंसार अधीहि भगवो ब्रह्मेदी तं होवाच तपसा ब्रह्मभिजिज्ञास स्वा तवो ब्रह्मेदी सदवोदप्यदा तदपस्तप्त्वा मनो ब्रह्मेदि व्यजानाद् मनसो ह्येव कल्लिमानि भूतानि जायन्ते मनसाजादानि जीवन्ति मनप्रयन्तभिसंविशन्तीति तद्विज्ञाया पुनरेव वरुणं वितरमुपससारा अधिभगवो ब्रह्मेदि संहोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेदि सदवोदप्यदा सदवस्तप्त्वा विज्ञानं ब्रह्मेदि व्यजानाद् विज्ञानाद्ध खल्युमानि भूतानि जायन्ते विज्ञानेन जातानि जीवन्ति विज्ञानं प्रयन्तभिसंविशन्तीति तद्विज्ञाया पुनरेव वरुणं पितरमुपसंसार अधिहि भगवो ब्रह्मेरी तं होवाच तपसा ब्रह्मविजिज्ञः स स्वा तपो ब्रह्मेरी तदपोदप्यदा तदपस्तप्त्वा आनन्दो ब्रह्मे दिवजानात् आनन्दाद्ध खलिमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ते आनन्दं प्रयन्दभिसंविशन्तीति स एषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिता सा या एवं वेदप्रतिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुर्ब्रह्मवर्चसेना महान्कृत्या ॐ गुण्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य वुर्णमादाय पूर्णमेव अवशिष्यते ॐ शण्डि षण् षण्डि